मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टीन् चैत्रशुक्लचतुर्थी वर्णनं श्रीगणेशाय नमः दशरथ उवाच श्रुतं चरित्रं मुख्यं यच्चतुर्थ्या फाल्गुने मया शुक्लाया सर्वदं योगिन्न न तृप्तोऽहं भवामि अदो चैत्रगाया चैत्रगाय यद्वरदायाश्चरित्रकं गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनां वसिष्ठ उवाच बंगालं नगरं ख्यादं शोभाभद्राख्यमुत्तमं तत्र चन्द्रप्रियो राजा प्रचक्रे राज्यमुत्तमम् शस्त्रास्त्रैः शत्रुसङ्खादां जित्वा वीरश्रियायुधः सागरान्दां धरित्रीं स सा चकारवशवर्तिनीं सामन्दावशगा सर्वे चक्रुसेवादिगं नृपाः तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः स्वयं धर्मपरो राजानीत्यावर्णाश्रमादिषु संस्थितान् रक्षयंश्चैव सदा हीनानदण्डयद चौराणां न भयं तत्र स्वस्व्यापारकारिणां तथापि रोगसंयुक्ता नरा नार्यो भवन् हि सर्वे समाययुः राजानं सर्वनीधिज्ञं पप्रच्युश्चेष्टिदम् अहद नागरादय ऊजुः वयं राजन् स्वधर्मस्ता त्वदाज्ञावशवर्तिनः अपि त्वं आधापि रोग तथापि रोगदोषश्च वन्ध्यदोषैर्विशेषदः धनधान्यविहीनाश्च पीडिता वयमुत्कटं वयमुत्कडं रसहीना वै बलहीनामहीरुहाः कावो दुग्धविहीनाश्च तव राज्ये महामदे धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः विपरीतं महाराज त्वयिराज्यं प्रशासति अधोऽस्मान् रक्षभूपालरोगादिभिप्रपीडितान् अस्माकं बलमत्यन्तं त्वमेव परमं मदं वसिष्ठ उवाच चन्द्रप्रियो वच श्रुत्वा तेषामेवं सुदुःखितः प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकं वनेहन्दुम्मनश्चक्रे ततस्तत्रा जगामः अष्टावक्रोमः योगी तं दृष्ट्वा प्रणनामसः सम्भूज्य भोजयामास पादसंवाहनेरथः स्वयं स्थितो महाविप्र मूचेसौ दुःखसंयुधः चन्द्रप्रिय उवाच धन्यं मे तपोयशः। दानं ज्ञानं तथा योगिन् युगदर्शनाद। तत् सर्वं स्ववृत्तान्तं कथयामास यत्नदः अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम् अष्टावक्र उवाच राजन् राज्ये महत्पापं प्रवर्तते तेन दुःखयुता सर्वा प्रजादानसंशयः चतुर्नां पुरुषार्थानाम् प्रापकं यन्महाव्रदं चतुर्थी संज्ञकं नष्टं तवराज्ये राज्ये नृपाधम पुरुषार्थैर्नरास्तेन हीनाः सर्वे धुना परम् अन्ते नरकगाराजन् भविष्यन्ति अष्टावक्रवच श्रुत्वा तं प्रणम्य महीपतिः उवाच दुःखसंयुक्तो वचनं स्वहितप्रदं चन्द्रप्रिय उवाच ब्रह्मण्डयानिधे स्वामिन्वद मे व्रतमुत्तमं कीदृश्यं कस्य देवस्य प्रियमित्याधिकं प्रभो अष्टावक्र उवाच कृष्ण शुक्ल चतुर्धीजं व्रतं गाणेश्वरं नृपा सर्वादौ तत्प्रकर्तव्यं धर्मकामार्थमुक्तये इत्युक्त्वा कथयामास चरित्रं सकलं द्विजः चतुर्थी सम्भवं तादश्रुत्वा राजा सुविस्मितः पुनः पप्रतं विप्रं विनयेन समन्वितः कीदृश्यो गणराजोऽयं व्रतं यस्य महाद्भुतम् वद तस्य स्वरूपं मे ज्ञात्वादं सर्वभावदः व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् अष्टावक्र उवाच गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते तथापि शृणुभूपालयेन त्वं ज्ञास्यसि प्रभुं पुराकं तपसि प्राज्ञसंस्थितो यत्नधारकः सुरूपका अप्सरसो यादलिद तदह तग्रकृष्वा कम शपीता मृत्युलोक पदध्वै चौरग्रस्ता भवेत ही यद्गिमाकर्ण्य भयभद प्रसादया मां प्रसादयामासुस्तदोकं दययायुधः अवदन्तत्र विष्णुर्वैयादवेषु भविष्यति तस्य पत्न्यो भविष्यन्त्योऽन्ते चौराणां भविष्यथ गदा अप्सरसो राजंस्तदोकं तप आचरं प्रभावेणादितपः सौन्दर्यज्ञानं मे भवत्परम् ततोऽहं तप उत्सृज्य शमीदमपरो भवं नानायोगविचारेण समाधिं साधयन् नृप य वमन्दे समानन्दे संस्थितोऽहं विशेषतः तत्र मोहं समालोक्य समरूपे सुविस्मितः ततः शान्त्यर्थमत्यन्तं क्लिश्यामि स्म महामदे ततो महायोगी ऋभुस्तत्र समागतः वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः प्रणम्याकं विशेषेणा पूज्यो वाचं महामुनिं धन्यं मे तप उग्रं यज्जन्मज्ञानादिकं तथा तव पादस्य योगेन कृद कृत्योऽस्मि एवं मदीयं वाक्यं सश्रुत्व वाच महामुनिः किं वाञ्छसि महाप्राज्ञ वद स्वाहं करोमि प्रणदो भूत्वा कृताञ्जलिपुटः पुनः अवधं योगशान्तिं मे वद योगीन्द्रसत्तमा ऋभुरुवाच संयोगपञ्चधाताद सत सत्समनेतितः स्वसंवेद्यमयेनैव मुने योगेन लभ्यते अयोगपञ्चभिर्हीनो निवृत्या लभ्यते जनैः तयोर्योगे भवेद्योगो लभ्यदे शान्तिमार्गतः तमेव गणराजं त्वं ज्ञात्वा भज महामते तेन शान्तिभवं सौख्यं लभसे नान्यथा क्वचिद संयोगो हि गकारश्च नकारो योगवाचकः तयो स्वामी गणेशान पश्य वेदे महामदे अहं पुरायुधो भ्रान्त्यानाना योगपरायणः अभवं तत्र भो विप्रसहजेन समाश्रितः स्वाधीनत्वमहो दृष्ट्वा तत्र तेन सुविस्मितः शरणं शङ्करस्यैव गदोऽहं योगकाम्यया शङ्करेणोपदिष्टस्म भजामि गणनायकम् एकाक्षरविधानेन तेन शान्तिं गदोऽभवं यवमुक्त्वा गणेशस्य मह्यं मन्त्रं ददौ एकाक्षरस्य मन्त्रस्य जपैः शान्तिं गदो भवम् अष्टावक्रप्रसन्नात्मा योगिवन्द्यो महायशः तस्मै नृपायमन्त्रं स ददौ द्वादशवर्णकं सविधिं मन्त्रराजं तं दत्त्वा चान्द्रहितो भवत राजा विघ्नेश्वरस्यैव भजने तत्परो भवत तत्रादौ चैत्रमासे या नृपशुक्ला समागता चतुर्थी सा कृता तेन नागरैस्वजनैः पुरा तद घोषया मासव्रतं जनपदेषु तदशौक्लं काष्णं विशेषेण चक्रु सर्वे जनास्तथा तदो योगादिभिर्हिणा बभूवुः पुत्रसंयुता ोष विहना विहारम चक्रुरादराद चंद्रप्रििय गणेशानमजन न्यचेतसा पुत्रेराज्यम निवेद शी गो वन गोत तद स्वल कालो नृपसम स्वानन्दे गणपं गत्वा ब्रह्मभूतो बभूवः क्रमेण भूमिसंस्थाये व्रतपुण्यप्रभावतः ब्रह्मभूत बभूवुस्ते दृष्ट्वा गणपतिं नृप अन्यत्वं शृणुचैत्रे वै शुक्लपक्षे चतुर्थीका तस्याश्चरितं पापग्नं सर्वसिद्धिप्रदायकं माधवे शूद्रजः पी को वसन् वनगोचरान् जखानपथिकान् दुष्टो द्रव्यलोभीनराधमः तस्य पापस्य सङ्ख्यानं कर्तुं नैव भवाम्यहं समर्थो गणनात्यक्ता ग्रन्थबाहुल्यदो शतः तं कदाचिद्वने संस्तं वृक्षाग्रे शस्त्रधारकम् वञ्चयित्वा जनान्घ्नन्तं तत्र सर्पो दतं सः ततः सोऽपि भयोद्विघ्नस्वगृहं प्रत्यपद्यत ततो विषेणराजेन्द्रपीडितो मूर्छितोऽभवद दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप चैत्रे प्राप्ता च शूद्रोऽभूत्पीडयान्न विवर्जितः पञ्चम्यां स मृतः पापी गतस्वनन्दके पुरे व्रतपुण्यप्रभावेणाज्ञानेनापि नृपात्मजा एवं नानाविध राजन् बभूविरे तेषां चरित्रकं वक्तुं शक्यते मया कदा इदं चैत्र चतुर्ध्यास्तु शुक्लाया संशृणोति चेत् माहात्म्यं स लभेत् कामानीप्सिद्धान् पठदे यदा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रशुक्लचतुर्थी वर्णनं नाम चतुर्दशोऽध्यायः ॐ